श्रीहरये नमः अथ पञ्चदशोऽध्यायः सोत उवाच एवं कृष्णसह क्रिष्न कृष्णो भ्रात्रा राज्ञा विकल्पितः नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्षितः शोकेन सुष्यद्वदनहृत्सरोजो हत प्रभः विभुं तमेवानुध्यायन्नाशक्नोत्प्रतिभाषितुं कृष्णेन संस्तभ्य सुषः पाणिना मृज्जनेत्रयोः परोक्षेण सम द्ध प्रणयौत्कण्ठ्यकातरः सख्यं मैत्रीं सौहृतं च सारथ्याशिषु संस्मरन् नृपम् अग्रजमित्यागभाक्ष्मगद्गतया गिरा अर्जुन उवाच वञ्चितोऽहं महाराजहरिणा भन्तुरूपिणा येन मेपहृतं तेजो देवविस्मापनम् अकरद् यस्य क्षणवियोगेन लोको उक्ते उक्तेन रहितोकेशमृथक् प्रोष्यते यता यः संश्रयाद्रपथगेहमुभगधानां राज्ञां स्वयं वरमुखे स्मरधुर्मधानाम् तेजोघृतं कलुमयाभिहतस्य मत्स्यः सञ्जीकृतेन धनुषाधिगधा च कृष्णा यत्सन्निधावहमुण्डवम् अग्नये धाम् इन्द्रं च सामरगणं तरसाभिजित्य लद्दाशभामय कृधाद्भुतशिल्पभाया दिव्यो हरन्द्रपतयो बलिमध्वरेते यत्तेजसानृपसिरोङ्घ्रिमहन्महार्यो नुजस्तव गजायुत सत्त्ववीर्यः तेनाकृतः प्रमधनाथमकाय भूपा यन्मोचिदास्तधनयन् बलिमत्वरे ते पद्ज्ञा सभाक्लप्रथमहाभिषेक श्लाघिष्टचारुभरं स्पृष्टं विकीर्यपधयोपदि दाशुमुख्या यस्त स्त्रियो कृतः ते स विमुक्तकेशाख यो जुगो भवनं येत्य धुरन्तकृच्छ्रात् दुर्वाससोरिरचितात् अयुधाग्रपुग्यः सा मंस्तसलिले विनिमग्नसङ्कहान् यत्तेजसा त भगवान् युधिशूलभाणे विस्माभितस्सि किरिजोऽस्त्रभधान् निजं मे अन्येऽपि साकम् अमुनैव कलेवरेण प्राप्तो महेन्द्रभवने मघधासनार्धं तत्रैव मे विहरतो भुजदण्डयुग्मं गाण्डीवलक्षणमरादिवधाय वाः सेन्द्राश्रिता यदनुभावितमाजमीत तेनाकमद्यमुषितः पुरुषेण भुम्ना यद्बान्धवः कुरु बलाब्धिमनन्तपारं एको एकोरतेन न ततरेहमतार्यसत्त्वं प्रत्याहृतं बहुधनं च मया परेषां तेजास्पदं मणिमयं च शिरोभ्यः यो भीष्मकर्णगुरुशल्यसमोक्षुध राजन्यवर्यरथमण्डलमण्डिदासो अग्रे चरो मम विभो रथयूतपानाम् आयुर्मनांसि चदृशा सकभोज अर्चत् यद् दोषु गुरुभीष्मकर्ण नभृत्रिघर्तशलसैन्दव वाक्लिकाध्यैः अस्त्राणि यमोकमहिमानि निरूपितानि नृहरिदासमिवासुराणि सौत्ये वृथक् कुमतिनात्मथ ईश्वरो मे यद्भत पद्मम् हे पार्दहे अर्जुनसखे कुरु नन्दने ते नरदेव हृदि स्पृशानि मर्दुर्लुटन्ते हृदयं मम माधवस्य सय्यासनाटन विघत्तन भोजनादिषु जगत्या स्व विप्रलब्धः सख्युत्सखेव पितृभत्तन यस्य सेहे महान्महितया कुमथे अघम्मे सोऽहं नृपेन्द्ररहितपुरुषोत्तमेन सख्याप्रियेण सुहृता हृदये न शून्यः अध्वन्युरुक्रमपरिग्रहमङ्गरक्षन् गोपय्यसद्भिरभवले पद्विनिर्जितोऽस्मि ोखं रथीन्रपतयो यत आनमन्ति सर्वं क्षणेन तदभू असत् ईसरिक्तं भस्मन्कुतं कुहकराद्धमिवोक्तमुष्या राजंस्त्वया बिप्रुष्टनां सुहृदां न सुहृत्पुरे विप्रसाद विमूटानां निग्नधामुष्टिभिर्मितः वारुणीं मतिराम् भीत्वा मधोन्मतिकचेतसाम् अजानधामि वान्योन्यं चतुःपञ्चवशेषिताः प्रायेणैतद्भगवत ईश्वरस्य विचेष्टितम् इतो भूतानि भावयन्ति च जलौकसां जले यद्वद्महन्तो दन्त्यणीयसहा दुर्बलान् बलिनो राजन्महान्तो बलिनेमितः एवं बलिष्ठर्यधुभिर्महद्भिरितरान् विभुवो यधून्यधुभिरन्योन्यम्भूभारान् सञ्चहारः देशकालार्थयुक्तानि हृत्ताभोपशमानि च हरन्ति स्मरतश्चित्तं गोविन्धाभिहितानि मे सुत उवाच एवं चिन्तयतो जिष्णो कृष्णपादसरोरुहम् सौहार्देनातिघाटेन शान्तासीत् विमलामतिः वासुदेवाङ्ग्रयनुध्यानपरिबृंहितरं हसा भक्त्या निर्मति सा शेषकषाय धिषणोऽर्जुनः गीतम् भगवताज्ञानं यत्तत्सङ्ग्राममूर्धनी कालकर्मतमोरुद्धं पुनरद्यगमत्प्रभुः विशोको ब्रह्म सम्पत्त्या सञ्चिन्नद्वैतसंशयः लीनप्रकृतिनैर्गुण्यात लिङ्गत्वात् शम्भवः निसंय भगवन् मार्गं स्वस्तां यदुकुलस्य च स्वप्पताय मतिं चक्रे निभृतात्मा युतिष्ठिरः पृथाभ्यनुश्रुत्य धनञ्जयोतं नासंयतूनां अदोषजे निसेवितात्मा उपररामसंसृतेः यया हरद्भुवो भारं तां धनुं विजहाभजहा द्वयं चापि शितुः समं यतामस्यातिरूपाणि धत्ते जग्यात्यथा नटः भूपारक्षपितो येन जघौ तश्च कलेवरं यतामुकुंतो मुकुन्तो भगवानिमां महीं जघो स्वतन्वा स्वरणीयसद्गतः तथाकरे वा प्रतिबुद्धचेतसाम् अधर्महेतोकलिरन्वर्तत युतिष्ठिरस्तत् परिसर्पणम्भूतः पुरे च राष्ट्रे च गृहे तदात्मने विभाव्यलोपान् नृत जिह्म किं सदाद् यथर्मचक्रं गमनाय पर्यधात् स्वराड्पौत्रं विनयिनम् आत्मनः सुसमं गुणैः व्यापतिं भूमे अभ्यषिञ्चद्गजाक्वये मथुरायां तथा वज्रं सुरसेनपतिं ततः प्राजपद्यां निरूप्येष्टिम् अग्नि न विजृश्य तत्र तत् सर्वं दुकूलवलयादिगं निर्ममो निरहङ्कारसञ्चिन्नाशेषबन्धनः वाचं जुहावमनसि तत्प्राणयित रे च तं मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोकवीत् त्रित्वे पञ्चत्वं तच्चैक <laughs> त्वे जुहोन् जुहोन्मुनिः सर्वम् आत्मनि अयजुहविद्ब्रह्मण्यात्मानम् अव्यये क्षीरवासा निराहारो बद्धवाङ्मुक्तमूर्धजहान् आत्मनो रूपं जटोन्मत्तपिशाचवत् अनपेक्षमाणो निरगात् अश्रुण्वन् पधिरो यत उचीं प्रविवेशानां गतः पूर्वां महात्मभिः कृति ब्रह्मपरं ध्यायन्ना वर्तते यतो गतः सर्वे तमनुनिर्जग्मुर्प्राधर कृतनिश्चयाः कलिना अधर्ममित्रेण दृष्ट्वा स्पृष्टाः प्रजाभुविः ते साधु हृत्सर्वार्ता ज्ञात्वात्यन्तिकमात्मनः मनसा तद्ध्यानोद्रिक्तया भक्त्या विशुद्धदधिक्षणाः परे तस्मिन् नारायणपदे एकान्तमतयो गतिम् अवापुर्दुरवापां ते विदूतकल्मशास्तानं विरजेन आत्मनैव हि विदुरोऽपि प्रभासे देहमात्मवान् कृष्णावेशेन तच्चित्तभितृभिः स्वशयं यय द्रौपदी च तदाज्ञायापतीनाम् अनभेक्षतां वासुदेव भगवती ह्येकान्तमतिरापथं यः श्रद्धयै तद्भगवत्प्रियाणां पाण्डोः सुधानामिति संप्रयाणं शृणोत्यलं स्वस्त्ययनं पवित्रं लब्ध्वा हरौ भक्तिमुपैति सिद्धिम् इति श्रीमद्भगवते महापुराणे प्रथमस्तन्ते पाण्डव स्वर्गारोहणं नाम पञ्चदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गो सद्गुरु सद्गुरुमहराजिकी जय